अथ सप्तमः सर्गः तस्यामात्यागुणैरासन्निक्ष्वातोस्तु महात्मनः मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यम् प्रियहिते रताः अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ध्यष्ट्यर्जयम् तो विजयः राष्ट्रवर्धनः अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ऋत्विजौ द्वावभिमतौ तस्यास्तामृषसत्तमौ वसिष्ठो वामदेवश्च मन्त्रिणश्च तथा परे सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य विद्या विनीता श्रीमन्तः कुशला नियतेन्द्रियाः श्रीमन्तश्च महात्मानः शस्त्रज्ञा दृढविक्रमाः कीर्तिमन्तः प्रणिहिता यथा वचनकारिणः तेजः क्षमायशः प्राप्ता स्मितपूर्वाभिभाषिणः क्रोधात् कामार्थहेतोर्वा न ब्रूयनुर्लम्बचः तेषामविदितम् किञ्चित् स्वेषु नास्ति परेषु क्रियमाणम् कृतम् वापि चारेणापि चिकीर्षितम् कुशलाव्यवहारेषु सौहृदेषु परीक्षिताः प्राप्तकालम् यथा दण्डम् धारयेयुः सुतेष्वपि कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे अहितम् चापि पुरुषम् न हिम्स्युरविदूषकम् वीराश्च नियतोत्साहराजशास्त्रमनुष्ठिताः शुचीनाम् रक्षितारश्च नित्यम् विषयवासिना ब्रह्मक्षत्रमहिं संतस्तेकोषं समपूरयन् सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् शुचीनामेकबुद्धीनाम् सर्वेषाम् सम्प्रजानताम् नासीत् पुरे वा राष्ट्रे वा मृषावादीनरः क्वचित् क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः प्रशान्तम् सर्वमेवासीद्राष्ट्रम् पुरवरम् च तत् सुवाससः सुवेशाश्च ते च सर्वेषु जाग्रतो नय चक्षुषा गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः अभितो गुणवन्तश्च सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः मन्त्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु सततम् प्रियवादिनः ईदृशैस्तैरमाद्यैश्च राजा दशरथोऽनघः उपपन्नो गुणोपेतैरन्वशा सद्वसुन्धरा अवेश्यमाणश्चारेण प्रजाधर्मेण रक्षयन् प्रजानाम् पालनं कुर्वन्न धर्मं परिवर्जयन् विश्रुतस्त्रिषु लोकेषु वदान्यः सतत्र स तत्र पुरुषव्याघ्रः शशास नाध्यगच्छद्विशिष्टम् वा तुल्यम् वा शत्रुमात्मनः मित्रवान्नतसावन्तः प्रतापः तकण्टकः स शशास तैर्मन्त्रभिर्मन्त्र हिते निविष्टैर्भृतोऽनुरक्तैः कुशलैः समर्थैः स पार्थिवो इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे सप्तमः